अत तैत्र्य आरण्यः अष्टमप्रश्नप्रारम्भः सहना भवतु सहनो भुनक्तो सह वीर्यङ्करवावहै तेजस्विनावधीतमस्तुमाविद्विषावहैः ओम् शान्तिः शान्तिः शान्तिः ब्रह्मविदाप्नोति परम् तदेषाभ्युक्ता त्याम् ज्ञानमनन्तम् ब्रह्म यो वेदनिहितङ्गुहायाम् परमे व्योमन् सोऽश्नुते सर्वान् कामान् सः ब्रह्मणापि पश्यतेति तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः आकाशाद्वायोः आकाशा वायोरग्निः अग्नेरापः अद्यः पृथिवी पृथिव्या ओषधयः ओषधेभ्योऽन्नम् अन्नात् पुरुषः वा एष पुरुषोन्नरसमयः तस्येदमेव शिरः अयम् दक्षिणः पृक्षः अयमुत्तरः पक्षः अयमात्मा इदम् वृच्छम् प्रतिष्ठा तदप्येष श्लोको भवति अन्नाद्वै प्रदाः प्रजायन्ते काश्च पृथिवीगश्रिताः अथो अन्नेनैव जीवन्ति अथैनदपिजन्त्यन्तम् ततः अन्नगुम् हि भूतानाम् ज्येष्ठम् तस्मात् सर्वौषधमुच्यते सर्वम् वैतेन्नमाप्नुवन्ति येन्नम् ब्रह्मोपासते अन्नगुम् हि भूतानाम् ज्येष्ठम् तस्मात् सर्वौषधमुच्यते अन्नाद्भूतानि जायन्ते जातान्यन्नेन वर्धन्ते अद्यतेत्युचभूतानि तस्मादन्नम् तदुच्यतदिति तस्माद्वा एतस्मादन्नरसमयात् अन्यान्तर आत्माः प्राणमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्नयम् पुरुषविधः तस्य प्राण एव शिरः ज्ञानो दक्षिणः पक्षः अपान उत्तरः पक्षः आकाश आत्मा पृथिवी पुच्छं प्रदिष्टा तदप्येश श्लोको भवति प्राणन्देव अनुप्राणन्ति मनुष्याः पशवश्चये प्राणो हि भूता नामायुः तस्मात्सर्वायुषमुच्यते सर्वमेव त आयुर्यन्ते ये प्राणम् ब्रह्मोपासते प्राणो हि भूता नामायः तस्मात्सर्वाजिषमुच्यत इति तस्यैष एव शारीर आत्मा यः पूर्वस्य तस्माद्वा एतस्मात्प्राणमयात् अन्यान्तर आत्मा मनोमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य जुरे वशिरः हृद्दक्षिणः पक्षः सामोत्तरः पक्षः आदेश आत्मा अथर्वाङ्गिरसः पुच्छम् प्रतिष्ठा तदप्येष शोको भवति यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दम् ब्रह्मणो विद्वान् न बिभेति कदाचनेति तस्यैष एव शारीर आत्मा यः पौर्भस्य तस्माद्वा एतस्मान्मनोमयात् अन्योऽन्तर आत्मा विज्ञानमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य श्रद्धैवशिरः घृतम् दक्षिणः पक्षः सत्यमुत्तरः पक्षः योग आत्मा अहः पुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति यज्ञानम् यज्ञम् तनुते कर्माणि तनुतेऽपि च यज्ञानम् देवाः सर्वे ब्रह्म ज्येष्ठमुपासते यज्ञानम् ब्रह्म चेद्वेद शरीरे पाप्मनो हित्वा सर्वान् कामान् तस्यैष एव शारीर आत्मा यः पूर्वस्य तस्माद्वा एतस्माद्विज्ञानमयात् अन्योन्तर आत्मानन्दमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य प्रियमेव शिरः पक्षः प्रमोद पक्षः आनन्द आत्मा ब्रह्मबुच्छम् प्रतिष्ठा तदप्येष शोको भवति असन्नेव स भवति असद्ब्रह्मेति वेद चेत् अस्तिर्ब्रह्मेति चेद्वेद सन्तमेनन्ततोऽपि दुरिति तस्यैष एव शारीर आत्मा यः पूर्वस्य अथातो न प्रश्नाः बुधा विद्वानमम् प्रेत्य कश्चन गच्छति आहो विद्वानमुल्लोकम् प्रेत्य कश्चित्समश्नुता सोऽकामयत बहु स्याम् प्रजायेजेति स तपो तप्यत सतपस्तप्त्वा इदम् सर्वमसृजत यदिदम् किम् च तत्सृष्ट्वा तदेवा न प्राविशत् तदनुप्रविश्य सच्छत्यभवत् निरुक्तम् च निरुक्तम् च निलयनम् च निलयनम् च विज्ञानम् चाविज्ञानम् च सत्यम् चानुतम् च सत्यमभवत् यदि लघिम् च तत्सत्यमित्याचक्षते तदप्येष शोको भवति ततो वै सदजायत तदात्मानज्ञस्वयमकुरुत तस्मात्तत्सुकृतमुच्यत इति यद्वै तत्सुकृतम् रसो वै सः रसगृह्येवार्यम् लब्ध्वानन्दी भवति को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्दजाते यदा ह्येवैषे तस्मिन्नदृश्येन आत्म्ये निरुक्ते निलजने भयम् प्रतिष्ठाम् विन्दते अथ सो भयम् गतो भवति यदा ह्येवैष एतस्मिन्नुदरमन्तरम् कुरुते अथ तस्य भयम् भवति तत्त्वेव भयम् विदुषो मन्वानस्य तदप्येषोतो भवति भीषास्माद्वातः पवते भीषोदेति सूर्यः भीषास्मादग्निश्चेन्द्रश्च मृत्यर्धावति पञ्चमदिति सैषानन्दस्य मीमा पुंसा भवति युवा स्यात्साधुयुवाध्यायकः आशिष्ठो दृढिष्ठोपरिष्ठः तस्येयम् पृथिवी सर्वा वित्तस्य पूर्णा स्यात् स एको मानुष आनन्दः तेजे शतम् मानुषा आनन्दाः आनन्दा, स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्य तेजे शतम् स एको देवगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्य तेजे देवगन्धर्वाणामानन्दाः स एकः पितृणाञ्जिलोकलोकानामानन्दः श्रोत्रियस्य चाकामहतस्य तेजे शतम् पितृणाञ्जिलोकलोकानामानन्दाः स एक आजानजानाम् तेजे शतमाजानजानाम् देवानामानन्दाः स एकः कर्मदेवानाम् देवानामानन्दः देवाना ये कर्मणा देवानपिदन्ति श्रोत्रियस्य च कामः तस्य तेजे शतम् कर्मदेवानाम् देवानामानन्दाः स एको देवानामानन्दः श्रोत्रियस्य च कामः तस्य तेजे शतम् देवानामानन्दाः स एक इन्द्रस्यानन्दः श्रोत्रियस्य चाकामः तस्य तेजे शतमिन्द्रस्यानन्दाः स एको बृहस्पतेरानन्दः श्रोत्रियस्य चाकामः तस्य तेजे शतम् बृहस्पतेरानन्दाः स एकः प्रजापतेरानन्दः श्रोत्रियस्य चाकामः तस्य तेजे शतम् प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः श्रोत्रियस्य च कामः तस्य स यश्चायम् पुरुषे यश्चासाबाधित्ये स एकः स य एवंवित् अस्माल्लोकात्प्रेत्य एतमन्नमयमात्मानमुपसङ्क्रामति एतम् प्राणमयमात्मानमुपसङ्क्रामति एतम् मनोमयमात्मानमुपसङ्क्रामति एतम् विज्ञानमयमात्मानमुपसङ्क्रामति एतमानन्दमयमात्मानमुपसङ्क्रामति तदप्येष शोको भवति यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दम् ब्रह्मणो विद्वान् न बिभेति कुतश्च नेति एतदम् हवामनतपति किमहगुम् साधुना करवम् किमहम् पापमकरवमिति स य एवम् विद्वानेते आत्मानग्स्पृणुते उभेह्येवैषेते आत्मानज्ञस्पृणुते य एवम् वेद इत्युपनिषत् सहनावत् सहनो भुनक्तो सह दीव्यम् करवावहै तेजस्विनावधीतमस्तु माविद्विषावहैः ओम् शान्तिःशान्तिःशान्तिः इति तैत्त्रिय आरण्यः अष्टमप्रश्नः समाप्तः